मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं नयन् प्रियव्रतराज्यप्राप्तिवर्णनम् श्रीगणेशाय नमः सूत उवाच दुर्वासाशङ्करस्यांशस्तताप परमं तपः नेदिब्रह्मणि सञ्जातो ब्रह्मभूतो महामुनिः तमधिक्रोधसंयुक्तमशान्तं शान्तिलालसं संवीक्ष्य सम् दत्तवज्ञानं ददावक्त्रिर्मः मुनिः मयूरेशक्षेत्रकेश गणेशध्यानमास्थितः स्वभक्त्या गणराजेन शान्तियोगयुधकृतः तदारभ्य महायोगी दुर्वासा शान्तिधारकः क्रोधहीनस्वभावः सञ्जातो ब्रह्मवित्तमः ये ददत्रिसुधानां दा ते चरितं कथितं मया यथा दक्षाय विप्र मुद्गलेन प्रकाशितम् अधुना कथयिष्यामि स्वायम्भुवजसन्ततेः चरितं सर्वपापग्नं कथितं मुद्गलेन यदशौनक उवाच कथं मुद्गलविप्रेण कथितं तस्य धीमतः चरित्रं वद सर्वं मे यथा सूद संश्रुतं सुद उवाच शापमोहितदक्षस्तु श्रुत्वा देयसमुद्भवं चरितं योगरूपं स मुद्गलं पुनरब्रवीत दक्ष उवाच धन्यो त्रिरस्य पुत्रा वै गणपत्या महौजसः योगिनो योगदातारश्रुतं तेषां चरित्रकम् अधुनावदमे ब्रह्मन् सृष्टिमार्गं पुरातनं स्वायम्भुव मनोःपुत्रौ चक्रधुखिं महौजसौ सुत उवाच दक्षस्य वचनं श्रुत्वा हर्षयुक्ते न जगादत्तमहायोगी मुद्गल परमार्थविद मुद्गल उवाच स्वायम्भुवमनोपुत्रौ संजादो पूर्णधार्मिको नाम नाम्नाख्यादौ प्रजापति जगाम साधनरधोवनं ज्येष्ठप्रियव्रतः देखादिनश्वरमत्वाभूत्स किन्नो मनुस्तदः जगामनारदस्तत्र सहसातं मनुर्जगौ पुत्रं प्रियव्रतं विप्रबोधयस्वभिधानदः तथेदि नारदस्तत्र ययौ तस्य महाश्रमं तं दृष्ट्वोद्धाय राजर्षिप्रणनाम कृताञ्जलिः स्वकीयाज्ञावशं पुत्रमानसे वीक्ष्य संस्थितं तं जगाद महातेजा नारदो राजसत्तमं शृणु पुत्रमहाभागप्रियं देहादिनेश्वरं सर्वं त्वया ज्ञातं महाद्भुतं तथापि नरदेहोऽयमृणत्रयसमन्वितः नरदेहकृतं कर्म तन्मूलं सकलं जगत् सर्वेषामन्नरूपोऽयं नरदेहो न तस्य पोषणमत्यन्तं कर्तव्यं देहधारिणा पालने स्वधर्मपालनेनैव वर्णाश्रमविधानदः देहिनाकृतपुण्येन विश्वं प्रपोषितम् यज्ञादिभिर्णं दैवं श्राद्धध्यैश्चैव पैतृकं पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति अधुना ऋणयुक्तस्त्वं वनं कस्मात्समागतः कुरुराजमहाभागस्वधर्मनिरदो मुदा पुत्रेषु राजमात्मीयं स्थापयित्वा च शाश्वतं mm. पश्च त्वं वरमाविश्य योगाभ्यासरथो भव मुद्गल उवाच नारदस्य वच हर्षितो राजसत्तमः उवाच तं मनोपुत्रप्राञ्जलिश्रद्धयान्वितः प्रियव्रत उवाच स्वामिन्विज्ञप्तुमिच्छामि वद मे त्वमहामते केनोपायनयोगीन्द्रब्रह्मभूतो भवेन्नरः नारद उवाच शृणुपुत्रप्रवक्ष्यामि ब्रह्मभूयपदप्रदं मार्गं संसाध्यशान्तिं च लभते मानवत्स्वयं गणेशं योगरूपं तं ज्ञात्वैव ब्रह्मनायकम् भवे जन्दु साधनेन महामदे शब्द गणशब्दसमूहस्य वाचकः परिकीर्तितः समूहायोगरूपाश्च बाह्यान्तरविभेदः अन्नानां सकलानां च सुदा सुधकथितं ब्रह्मदेवेषु एवं नानागणा स्मृताः तेषां पदीं गणेशानं तं ज्ञात्वा योगिनः पुरा शान्तिं प्राप्ता विशेषेण शान्तियोगमयं परम् अस्माकं कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः तमाराधयत्नेन ततः क्षेमं भविष्यति गुणेशो गणराजसम्भुज्य वैभक्तिभावतः बभूव ब्रह्मभूतश्च भक्त्यास्माकं पितामहः तस्य पुत्रात् समाख्याद ब्रह्मविष्णुमहेश्वरः सूर्यशक्तिश्च पंचैते तं समाराध्य भोगिनः तदस्ते शान्तिमत्यन्तं प्राप्ता विश्वेश्वरा ब्रह्मणश्च वयं पुत्रा भजामस्तम गणाधिपं ततो योगीन्द्रमुख्याश्च वयं जादा प्रियव्रत सर्वज्ञानसमयुक्ता बन्धहीना विशेषतः तथा त्वमपि राजेन्द्रगणेशं भज भावतः स्तवादसुलभं सर्वं भविष्यदि सदानख तात एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः गणेशाराधनं सर्वं बोधयामास यत्नतः एतस्मिन्नन्तरे तत्र ब्रह्मणा सह सङ्गतः स्वायम्भुवो मनुस्सुज्ञस्तौ दृष्ट्वा प्रणतौ सुतौ ब्रह्मणा बोधितोऽत्यन्तं पुनः पौत्रः प्रियव्रतः मनुना सह राजर्षिर्ययौ स्वनगरे तदा पुत्रौ स्वायम्भुवो राज्ये समास्थाप्य वनं ययौ योगेनाराधयामासगणेशं भक्तिसंयुधः क्रमेण पञ्चभूमीनां चित्तस्य परदो गतः चित्तं महायोगी ब्रह्मभूतो शान्तियोगं समाश्रित्य ब्रह्मलोकं जगामः तत्रैव संस्थितोऽभूत् स भजने रतः प्रियव्रत स्वयं राजा पालयामा समेदिनीं धर्मेण निधिदानेन त्यागेन यश आर्जयद स्व स्वधर्मरता सर्वे जना वर्णाश्रमान्विताः मुदिदा सत्यशीला च राज्ये प्रियव्रते ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे प्रियव्रद प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ओम्